प्रातस्म रामि ललिता वदनारविन्दम् बिम्बाधरम् पृथुलमौक्तिकशोभिनाश आकर्णदीर्घनयनं मणिकुण्डलाढ्यम् अन्धस्मितं रमदोज्ज्वलभालदेशम् प्रादर्भरा ललिता भुजकल्पवल्ली रत्नाङ्गुलि यलसदङ्गुली शोभमाना पुंप्रेक्षु चापकुसुमेषु श्रिणि दधाना प्रादर्नमामि चरणारविन्दम् श्रेष्ठदाननिरतं भवसिन्धुपोतम् पद्मासनादिसुरनायक पूजनीयम् करुणानमध्या विश्वस्य सृष्टिविलय स्थितिहेतुभूता विश्वेश्वरीं निगमवान् मनसातिदूरा <laughs> प्रादुर्वदामि लिते तव पुण्यनाम कामेश्वरीति कमलेति महेश्वरीति शीशाम्भवीति जगदाम् जननी परेति वाग्देवतेति वचसा त्रिपुरेश्वरीति ये श्लोक पंचक ललिताम सौहार्यम सुलित पठति प्रभाते, ललिता झटती प्रसन्ना ं श्रियं विपुटसौख्यमनं जीर्तिम्